शीतितमः सर्गः गुहस्य वचनम् श्रुत्वा भरतो भृशमप्रियम् ध्यानम् जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् सुकुमारो महासत्त्व महाभुजः पुण्डरीकविशालाक्षस्तरुणः प्रत्याश्वस्य मुहूर्तम् तु परमदुर्मणाः ससादसः सातोत्रैर्हृदि विद्ध इव द्विपः दृष्ट्वा विवर्णवदनो गुहः बभूवव्यथितस्तत्र भूमिकम्पे यथा द्रुमः तदवस्थम् तु भरतम् शत्रुघ्नोऽनन्तरस्थितः परिष्वज्यरुरोदोच्चैर्विसञ्ज्ञः शोककर्षितः ततः सर्वाः समापेतुर्मातरो भरतस्य उपवासकृषादीना भर्त्रव्यसनकर्षिताह ताश्च तम् पतितम् भूमौ रुदत्यः पर्यवारयन् कौसल्यात्वनुसृत्यैनम् दुर्मणाः परिशस्वजे वत्सला स्वम् यथा वत्समुपगृह्य तपस्विनी परिपप्रच्छ भरतम् रुदति शोकलालसा पुत्रव्याधिर्नते कच्चिच्छरीरम् प्रतिबाधते अस्य राजकुलस्याद्यत्वदधीनम् हि जीवितम् त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते वृत्ते दशरथे राज्ञिनाथ एकस्त्वमद्यनः कच्छिन्न लक्ष्मणे पुत्रः श्रुतम् ते किञ्चिदप्रियम् पुत्रे वाह्येकपुत्राय सह भार्ये वनम् गते समुहोर्तम् समाश्वस्य रुदन्नेव महायशाः कौसल्याम् परिशान्त्येदम् गुहं वचनमब्रवीत् भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः अश्वपच्छयने कस्मिन् किम् भुक्त्वा गुहशंसमे सोऽब्रवीत् भरतम् हृष्टो निषादाधिपतिर्गुहः यद्विधम् प्रतिपेदे च रामे प्रियहिते तिथौ अन्नमुच्चावचम् भक्ष्या च रामायाभ्यवहारार्थम् बहुशोपहृतम् मया तत्सर्वम् प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः न हि तत्प्रत्यगृह्णात् स क्षत्रधर्ममनुस्मरन् न ह्यस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा इति तेन वयम् सर्वे अनुनीता महात्मना लक्ष्मणेन यदानीतम् पीतम् वारि महात्मना औपवाकाघव सह सीतया ततस्तु जलशेषेण लक्ष्मणप्यक्यतास्ते सन्ध्यासंत संहिता सौमित्रिस्त पश्चाद स्वास्तर शुभम स्वयं बर्ीं शि क्षिप्र राघव कारणा तस्वद्रा स्वास्तरे सह सीतया प्रक्षाल्य च तयोः पादो व्यपाक्रामत् स ततस्त्वहञ्चोत्तम बाणचापभत् स्थितो भवम् तत्र स यत्र लक्ष्मणः अतन्द्रितैर्ज्ञातिभिरात्त कार्मुकैर्महेन्द्र कल्पम् परिपालयस्तदा इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे सप्ताशीतितमः